गणेशपुराणम् उपासनाखण्डम् अध्यायम् 82 व्यास उवाच कथं रामो बाल एव कृतवीर्यसुतेनः एकाकी बहुसैन्येन सहस्रभुजशालिना अजयत्तं महावीरं तन्मे कथय विस्तराद क ेकस्मिन् दिवसे रामो मादरं परिपृष्टवान् राम उवाच यस्मादिन्द्रादयो देवा बिभ्यदित्रा सकम्पिताः अनन्दं यस्य सैन्यं तच्चतुरङ्कसमन्वितं कथं विजेष्येतं मातरुपायं मेऽखिलं वद एकविंशदिवारं च कथं निःक्षत्रियां धरां करिष्येवद तत्सर्वं त्वत्प्रसादा जयो अदुला भवेद अदुला मम कीर्तिश्च सर्वलोकेषु विश्रुता माधोवाच विजयस्ते भवेत्पुत्र शङ्कराराधनं कुरु तुष्टे तस्मिन् महादेवे सर्वं सेत्स्यदि वाञ्छितं यदि तद्वचनं श्रुत्वा रामः कैलासमायययौ प्रणम्य मातृचरणावाशिषं प्रतिगृह्य च तत्रापश्यन्महादेवं रत्नसिंहासने स्थितं बद्धाञ्जलिपुडो रामो नत्वा तुष्टावतं तदा राम उवाच नमो देवदेवेश गौरीश शम्भो नमो विश्वकर्त्रे नमो विश्वभर्त्रे नमो विश्वभर्त्रे नमो विश्वभर्त्रे नमो विश्वधाम्ने नमश्चन्द्रधाम्ने नमो निर्गुणायामलज्ञानहेदोर्निराकार साकारनित्यायतेस्तु नमो देववेदात्तशास्त्राधिगाय नमो व्यक्तव्यक्तात्मने तत्स्वरूपम् गुणत्रयप्रबोधाय गुणातीतायते नमः नमः प्रपञ्चविदुषे प्रपञ्चरहितायते क उवाच इति स्तोत्रं समाकर्ण्य परितुष्टो महेश्वरः उवाच राममामन्त्र्य तृप्तो वाक्यामृतेन नते वरं वृणीष्व मत्तस्त्वं यं यं कामयसे हृदि जानामि जामदग्न्यं त्वां रेणुकातनयं द्विज राम उवाच कार्तवीर्येण दुष्टेन कामधेनुमपेक्षतां जमदग्निर्हदो रोषाद् अपराधं विना प्रभो रेणुकाताडिदाबाणैः समन्ताज्जननी मम एकविंशतिसङ्ख्याकैर्भुक्त्वापि सेनया सह जहिदं दुष्टनृपदिमिति मात्रा नियोजितः त्वामकं शरणं व्याद उपायं वद त्रिसप्तवारं तेनैव गुर्याम् निःक्षत्रियां महीं क उवाच एवं विदिततत्त्वार्थो महादेवो जगात्तम् आलोक्यप्रणिधानेन जयोपायं सुखावहं षडक्षरं महामन्त्रं द्विरधाननतोषकम् कथयामास रामाय जपं कुरु प्रयत्नतः लक्षमात्रं च होमं च दशांशेन समाचर तर्पणं तद्दशांशेन तद्दशांशेन भोजनं ब्राह्मणानां महाभक्त्या प्रसन्नो भविता भुवि गजाननो देवदेवः सर्वकार्यं करिष्यति इति तद्वचनं श्रुत्वा प्रणम्य भवमादराद आज्ञां गृहीत्वा रामो सावचलायां भ्रमन् भ्रमन् कृष्णाया उत्तरे देशे पश्यस्थानमनुत्तमं नानावृक्षलताजालैरभिरामं सुसिद्धिदम् तत्रा करो तत्राकरोदनुष्ठानं यथोक्तं तेन शम्भुना इन्द्रियाणां च मनसो वृत्तिं स्थाप्य गजानने आवर्तयन्महामन्त्रमेकाङ्गुष्ठस्थितो द्विजः जुहावतर्पयामास भोजयामास वै द्विजान् दशां शेन दशां शेन दशां शेन यथा क्रमं तदः प्रसन्नो भगवानाविरासीद् गजाननः चतुर्भुजो महाकायो महामायोतिसुन्दरः नागयज्ञोपवीती च नानालङ्कारशोभितः मुकुडीकुण्डलीभ्राजचारुगण्ठो लसन्मुखः मुक्ताप्रवालमालाभिर्भ्राजद्वक्षा महाभुजः परशुं कमलं दन्तं मोदकांश्च ददद्भुजैः पुष्करं पुष्करे धृत्वा भ्रामयन् स्वेच्छया विभुः प्रभया भासयन् सर्वा दिशो विदिश एव च ददर्श रामो कस्मात् तं न्यमीलयद चाक्षिणी तत्तेजसा प्रदिहते तत्तस्तुष्टावतं द्विजः राम उवाच सहस्रादित्यसङ्काश नमस्ते जगदीश्वर नमस्ते सर्वविद्येष सर्वसिद्धिप्रदायक विघ्नानां पदये तुभ्यं विघ्ननिवारण सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियङ्कर भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे नमो विश्वस्य कर्त्रे ते नमस्तत्पालकाय च निवारयमः विघ्नं तपो नाशकरं मम क उवाच इति स्तुतिं सौम्यतेजा गजाननः उवाच रामं सम्भ्रान्तं स्वसैव तिक्मतेजसा गणेश उवाच यं ध्यायसि दिवारात्रौ मन्त्रं जप्त्वा षडक्षरं वरं दादुं समायादः रामतवाधुना वरं वृणीष्व मत्तस्त्वं यद्यद् वाञ्छसि चेतसा ब्रह्माण्डानामनेकानां सृष्टा पादापहारकः नैव जानन्दिमे रूपं ब्रह्माद्या मुनयोऽपि च राजर्षयश्च सर्वेऽपि सोऽकं ते गदाः राम उवाच यो प्रमे योलाधारसृष्टिसंहारकारकः यो, का। यो न वेदैर्नतपसा न यज्ञैर्व्रतसञ्जयैः न दानैर्नैव योगैश्च जनानां दृष्टिगोचरः सोऽहं त्वं हि मया दृष्टो नुग्राहात्तव विघ्नप देव किए दक्ति देजा दृढ़ा गणेश उवाच भविता मम भक्ति दृढ़ रामजोतम प्रलोभित बुद्धिसु बुद्धि सुविहला परशु सर्वशत्रु गृहांसत्रुनबं नाम ते परशुरामे द्वित्र्यैलोक्ये ख्यादिमेष्यति क उवाच एवं तस्मै वरं दत्त्वा परशुं च गजाननः पश्यतां सर्वलोकानामन्तर्धानं ययौ तदा रामोस्तापयामासगणपतिं तदा ब्राह्मणायुर्वेदवेदाङ्गशास्त्रविद्भिः समं मुदा ब्राह्मणान् भोजयामास दत्वा दानन्यनेकशः प्रासादं कारयामास रत्नस्तम्भयुधं दृढं सम्पूज्य तं परिक्रम्य प्रणिपत्यगजाननं रामप्रसन्नमनसा प्रयौ निजमन्दिरं तदो रामो जुहावोचै कार्तवीर्यं धरापदिं युद्धेदु चाधयामास राज्ञो बाहुसहस्रकं निःक्षत्रियां च पृथिवीं चक्रेत्री सप्तवारतः ब्राह्मणेभ्यो ददौ पृथ्वीं यज्ञं कृत्वा सदक्षिणं पुपुजुस्तं तदा लोकात् ज्ञात्वा विष्णुं तमीश्वरम् दृष्ट्वा पराक्रमं तस्य सर्वदेवादिगं दृढं एवं नानाविधो ब्रह्मन् महिमा ते निरूपितः गजाननस्य देवस्य सङ्क्षेपेण मया सुता निखिलेन न शेषोऽक्षमो वक्तुं मुनीश्वर सुपासनाखण्डमिदं शृणुयान्मासवो भुवि सर्वान् कामानवाप्नो गणेशं धाम चाप्नुयाद यथेष्टं रमदे तत्र यावदाभूदसम्प्लवम् इति श्रीगणेशपुराणे उपासनाखण्डे रामवरदानं नाम द्वि अशीतितमोऽध्यायः ओम्